अथ षष्टितमोऽध्यायः सौ तिरुवाच दीक्षितं जनमे जयम् अभ्यगच्छदृशिर्विद्वान् कृष्णद्वैपायनस्तदा जनयामासयम् काली शक्तेः पुत्रात्पराशरात् कन्यैवयमुनाद्वीपे पाण्डवानां पितामहम् जातमात्रश्च सद्य इष्ट्या वे वेदांश्चाधिजगे साङ्गान् सेतिहासान्महायशाः यन्नैति तपसा कश्चित् न वेदाध्ययनेन च न व्रतैर्नोपवासैश्च न प्रशान्त्या न मन्युना विव्यासैकं चतुर्धायो वेदं वेदविदाम्बर परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजन शान्तनोः सन्ततिं तन्वन् पुण्यकीर्तिर्महायशाः जनमे जयस्य राजर्षेः स महात्मा सदस्तदा विवेशसहितशिष्यैः वेदवेदाङ्गपारगैः तत्र राजान ददर्शजनमे जयं वृतं सदस्यैर्बहुभिः देवैरिव पुरन्दरम् तैश्च नानाजनपदेश्वरैः ऋत्विग्भिर्ब्रह्मकल्पैश्च कुशलैर्यज्ञसंस्तरे जनमे जयस्तु राजर्षिः दृष्ट्वा तम् ऋषिमागतम् सगणोऽभ्युद्ययौ प्रीत्या भरतसत्तमः काञ्चनं विष्टरं तस्मै सदस्यानुमतः प्रभुः आसनं कल्पयामासा यथा शक्रो तत्रो तत्रोपविष्टं वरदं देवर्षिगणपूजितम् पूजयामास राजेन्द्रः अस्त्रद्रष्टेन कर्मणा पाद्यमा च अर्घ्यं गां च विधानतः पितामहाय कृष्णाय तदर्हाय न्यवेदयत् प्रतिगृह्यतु तां पूजां पाण्डवाज्जनमेजयात् समनुज्ञा प्या व्यासः प्रीतो भवत्तदा तथा च पूजयित्वा तं प्रणयात् प्रपितामहम् उपोपविश्य प्रीतात् मा पर्यपृच्छदनामयं भगवानपि तं दृष्ट्वा कुशलं प्रतिवेद्य च सदस्यैः पूजितः सर्वैः सदस्यान् प्रत्यपूजयत् ततस्तु सहितः सर्वैः सदस्यैर्जनमे जयः इदं पश्चाद्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः जनमे जय उवाच कुरूणां पाण्डवानां च भवान् दर्शिवान् तेषाम् चरितमिच्छामि कथ्यमानं त्वया कथं समभवद्भेदः तेषामक्लिष्टकर्मणाम् तच्च कथं कथम् न्तकरणं महत् पितामहानां सर्वेषां दैवेनानिष्टचेतसां कार्त्स्न्येनैतन्ममाचक्ष्व यथावृत् द्विजोत्तम सौतिरुवाच तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा शशासशिष्यमासीनं वैशम्पायनमन्तिके व्यास उवाच कुरूणां पाण्डवानां च यथा भेदोऽभवत् पुरा तदस्मै सर्वमा चक्ष्वा गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा आचचक्षे आच सर्वम् इतिहासं पुरातनम् राज्ञे तस्मै सदस्येभ्यः पार्थिवेभ्यश्च सर्वशः भेदं सर्वविनाशं च कुरु पाण्डवयोस्तदा इति श्रीमहाभारते आदिपर्वणि अंशावतरणपर्वणि कथानुबन्धे षष्टितमोऽध्यायः